तेन नर्तनवेषेण अपुंस्त्वेन तथैव च वर्षमेकं विहृत्यैव ततः पुंस्त्वमवाप्स्यसि एवमुक्तस्तु शक्रेण फाल्गुनः मुदं परमिकां लेभेन च शापं व्यचिन्तयत् चित्रसेनेन सहितो गन्धर्वेण यशस्विना रेमे स पाण्डुपुत्रो धनञ्जयः इदम् यशृणुयाद्वृत्तम् नित्यम् पाण्डुसु तस्य वै न तस्य पापकेषु प्रवर्तते इदमरवरात्मजस्य घोरम् शुचिचरितम् विनिशम्यफाल्गुणस्य व्यपगतमदम्भरागदोषास्त्रिदिवगता विरमन्ति इति श्रीमहाभारते वनपर्वणि इन्द्रलोकाभिगमनपर्वणि ऊर्वशीशापो नाम षड्चत्वारिंशोऽध्यायः